हय गिरिनन्दिनि नन्दितमेदिनि विश्वविनोदिनि वे नन्दते गिरिवरविन्दसि रोधिनिवासिनि विष्णुविलासिनि जिष्णुनुते भगवति हे सितिकण्ठकुटुम्बिनि भोरि कुटुम्बिनि भोरि कृते जय हे महिषासुरमलिनि रम्यकपलिनि शैलसुते धुरवर वर्षिणि दुर्धर धर धर्षिणि दुर्मकमर्षिणि हर्षरते त्रिभुवनपोषिणि शङ्करतोषिणि मोरि घोषरते धनुजनि रोचिनी दितिसुतरो दुर्मो तन्तुते जय हे महिषा सुरमदिनी रम्यपल् दिनि शैले ऐ जगदम्बमदम्बकदम्बवनप्रियवासिनि हासरते शिखर शिरोमणि तुङ्गहि मालय तेङ्गणि जालय म जगते मधुमधुरे मधुकैटभगन्दिनि कैटभञ्जिनि रासरते जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसते अयशतखण्डविखण्डितरुण्डवितुण्डितसु खंद लगदाधिपते दीपुगज गण्डवे दाननचण्ड पराक्रमसु मृगाधिपते निज भुज दण्ड निपातित कुण्ड विपातितमुण्ड बटाधिपते जय हे महिषासुरमदिनि दमर्दिनि शैलसते हैरणशत्रुवधोदित दुर्धर निजर शक्तिभृते चतुर्विचारधुरी न महाशिव दुरित दुरितदुरिह दुराशय दुर्मति दानवदूत हितान्तमते जय जय हे रम्यक रम्यकपर्दिनि शैलच्युते दै शरिणागत वैरिवधूवर धीरवराभयदाय करे त्रिभुवनमस्तक शूलविरोधि तिरोधि कृतामलशूलकरे धुमि धुमि तामर् दुन्दुभिना दु मुकुल्मुखरी कृत दिङ्करे जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते दैनिजहुङ्कृतिमातृनिराकृत धूम्रविलोचनधूम्रशते समरविशोषित शोढित बीज समुद्भवशोडित बीजलते शिव शिव शुम्भनि शुम्भमहाहव तर्पितभूतपिशाचरते जय हे महिषासुरमदिनि रम्यकपर्दिनि शैलच्युते धनुरनुशङ्गरणसङ्ग परिपुरदङ्ग न तत्कटके कनकपिसङ्गरसद्भट सिंह कहता बटुके हित चतुरङ्ग बलक्षितरङ्ग गतद्बुरङ्ग रतबटुके जय जय हे महिषासुरमर्दिनि रम्यकर्दिनि शैले जय जय जय जय जय जय शब्द परस्तुतितत्पर विश्वनुते जड जन झिञ्जिं झिङ्कृतनुपुर झञ्जितमोषित भूतपते नटितनटाशनटे नटनायक नट नाटित नाट्य सुगानरते जय हे महिषासुरमदिनि रमकपर्दिनि शैलते ऐ सुमन सुमन सुमन सुमन सुमनो हरकान्त्युते हितरजनी रजनी रजनी रजनी रजनी, रजनी सुनयन विभ्रमर भ्रमर भ्रमर भ्रमर भ्रमराधिपते जय हे महिषासुरमर्दिनि रमकपर्दिनि शैलचुते महि तमहावल्लभतल्लिकवल्लितरलितभल्लिरते निरचितवल्लकपल्लिक मल्लिक झुल्लुल्लिक वल्गवते सुतकृतफुल्लुल्ल सितारुल तल्ल जपल् लव सलिते जय हे महिषासुरमलिनि रम्य कपलिनि शैलसुते धविरलगण्डगलन्मदमे दुरमतमतं गजराजपते त्रिभुवन भूषण भूतकलानधि रूपपयोनिधिराजसुते ऐ सुदते जनलाल समान समोहनमन्मत राजसुते जय मर्दिनी महिषासुरमर्दिनि रमकपर्दिनि शैल सुते कमल दलमल कोमल कान्ति कला कलितामल भलते सकल विलसल निलय क्रम केलचलत् कलह सकुले अलि कुल कुवलय मण्डल मौलि मिल कुलिकुले जय जय हे महिषासुरमर्दिनि रम्यपर्दिनि शैल सुते कर मरली रव विजित को जीतल कोकिल मञ्जुमते नीलतपुलिन्द मनोहर गुञ्जित रञ्जित शैलने निकुञ्जगते निजगणभूतमहासबरि गण रङ्गण समृत कलिरते जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते तटितट चण्डरुचे प्रणतसुरासुर मौनिमणिसुर धनसुलसन्न चन्द्र जय जय हे महिषासुरमर्दिणि रम्यकपर्दिनि शैलसुते निजितसहस्रकरैकसहस्र करैकसहस्र करै कनुते कितसुर तारक सङ्गर तारक सङ्गर तारकशुरु सुते सुरथ समाधि समान समाधि समाधि समाधि सुजातरते जय हे महिषासुरमलिनि रम्यकपर्दिनि शैलश्रुते पदकमलं करुणानि लये वरि वसति यो नुदिनं सुशिवे नयिकमले कमलानिलये कमलानिलय स कथं न भवे तव पदमेव परं पदमेत्यनुशीलयतो मम किं नु जय हे महिषासुरमर्दिनि सम्यक् पर्दिनि कनकलसत्कलशिकजलैरनुसि गरणाङ्गभुवं भजति सखिं न स शरणं करवाणि मृदानि सदा जय हे महिषासुरमलिनि रमकपर्दिनि शैलसुते तव विमलेन्दुकुलं वदनेन्दुमुलं सकलं ननुकूलयतिमपुरहूतपुरीन्दमुखे सुमुखी विरसौ विमुखी भी क्रियते मम तु मतं शिवनामधने भवति कृपया किं न क्रियते जडे हे महिषा सुरमर्दिनि रम्यकपर्दिनिशैलसुते अयि मयि दीनदयालुतया कृपयैव तया कवितव्यमु तै जगतो जननी कृपया शि यथाशितता नुमिता शिरते यदुचितमद्यभवतुरी गुरुता दुरुतापमपा कुरुते जे हे महिषा सुरमदिनि जय हे महि ससुरमर्दिनि रमकरदिनि शैले जय हे महि ससुरमर्दिनि रमकर्दिनि शैले